श्रीहरये नमः अथ द्वादशोऽध्यायः नमो धर्माय मखते नमः कृष्णाय वेदसे ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् एतत्त्वकथितं विप्रा विष्णोश्चरितमद्भुतं भवद्बर्यदहं पृष्टो नराणां पुरुषोचितम् अत्र सङ्कीर्तितत्साक्षात् सर्वपापहरोहरिः नारायणो ऋषिकेशो भगवान् सात्वतां पतिः अत्र ब्रह्मपरं गुह्यं जगदः प्रभवाप्ययं ज्ञानं च तदुपाज्ञानं प्रोक्तं विज्ञानसंयुतं भक्तियोगसमाज्ञातो वैराग्यं च पारिशितं पारिषितम् उपाज्ञानं नारदाख्यानमेव च प्रायो भवेशो परीक्षितः सुखस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः योगधारणयोक्रान्तिस्संवादो नारदाजयोः अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः विदुरोद्धवसंवादशत्रुमैप्रेययोस्ततः ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्य चे ततो ब्रह्माण्डसम्पूतेर्वैराजः पुरुषो यतः कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः भुवुद्धरेण भूतेर् अर्द नारी नैत यतस्वायं मनु सतूयास्तीर्णाद्या प्रकृति संतानो धर्म पत्ना गर्तम अवतारो भगवतः कपिलस्य महात्मनः देवहूत्याश्च संवादः कपिलेन च धीमता नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनं ध्रुवश्च चरितं पश्चाद्भ्रतो प्राचीनबर्हिषः नारदस्य च संवादस्ततः प्रयव्रतं द्विजाः भरतस्य च त्वीपवर्षसमुद्राणां गिरिनत्युपवर्णनं ज्योतिश्चक्रस्य संस्थानां पादाळनरकस्थितिः दक्षजन्म प्रचेदोऽप्यस्तत्पुत्रीणां च सन्ततिः यतो देवासुरनरास्थैर्यं न गगगगादयः त्वाष्ट्रश्च पुत्रयोश्च धिधेर्द्विजाः दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मनः मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणं मन्वन्तरावताराश्च विष्णोर्हयशिराधयः कौर्मं धान्वन्तरं मात्स्यं वामनं च जगत्पतेः शिरोदमतनं तत्त्वत् अमृतार्थे दिवौकसा देवासुरमहायुद्धं राजवञ्चानुकीर्तनम् इक्ष्वाकुजन्म तद्वंशुद्ध्युं नश्य महात्मनः इलोपाख्यानमत्रोक्तम् तारोपाख्यानमेव च सूर्यवंसानुकथनं सशादाद्यानृघातयः सौकन्यं चातसर्याते ककुत्स्थस्य च चा धीमतः कट्वाङ्गस्य च मां सौभरे सगरस्य च रामस्य कोशलेन्द्रस्य चरितं गिल्बिशापहं निमेङ्घ परित्यागो जनकानां च सम्भवः रामस्य भार्गवेन्द्रस्य निक्षत्रकर्णम्भुवः जलस्य सोमवंशस्य ययातेर्नकुशस्य च दोष्यन्तेर्भरतस्यापि शन्तनौस्तत्सुतस्य च यया ते ज्येष्ठपुत्रस्य यत्रावतीर्णो भगवान् कृष्णाक्यो जगदीश्वरः वसुदेवगृहे जन्म ततो वृत्तिश्च गोकुले तस्य कर्माण्यपाराणि कीर्तितानि असुरद्विषः ऊतनासु पयः पानं सकटोच्चाटनं शिशोः तृणावर्तस्य निष्पेषस्तथैव भगवत्सयोः धेनुकस्य सह प्रलम्बस्य च संशयः गोपानां च परित्राणां दावाग्ने परिशर्पदः दमनं कालि अस्याहेर्महाहेर्नन्दमोक्षणं व्रतचर्या तु कन्यानां यत्र तुष्टोच्छ्युतो व्रतैः प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनं कोवर्धनोद्धारणं कृष्णस्य स्त्रीभिः क्रीटाचरात्रिषु शङ्कशूढश्च धोरिष्टश्च केशिनः अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः गजमुष्टिकचाणोरकंसादीनां च मृतस्यानयनं शूनो पुनः शान्दीपनेर्गुरोः मथुरायां निवसता यतुश्चक्रस्य यत्प्रियं कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः गातनं यवनेन्द्रस्य कुशस्थल्यानिवेशनम् आधानं पारिजातस्य सुधर्मायाशुरालयात् रुक्मिण्याकरणं युद्धे प्रमत्यद्विशतो हरेः हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनं प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् दन्तवक्त्रस्य दुर्मतेः शम्भरो द्विविधः पीठो मुरः पञ्जनादयः महात्म्यं च वतस्तेषां वाराणा स्याच्च दाहनं भारावतरणं भूमेर्निमित्तीकृत्य विप्रचापापदेशेन संहारस्वकुलस्य च उद्धवश्च च संवातो वासुदेवस्य चाद्भुतः यत्रात्मविद्या ह्य किल प्रोक्ता धर्मविनिर्णयः ततोमर्त्यपरित्याग आत्मयोगानुभावतः उपलक्षणवृत्तिश्च कलौ नृणाम् उपप्लवः चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा देहत्यागश्च राजर्षेर्विष्णुरातस्य धीमतः शाखाप्रणयनं मृषेर्मार्गण्डेयस्य सत्कथा महापुरुषविन्यास सूर्यस्य जगदात्मनः इति चोक्तं द्विजश्रेष्ठो यत्पृष्ठोऽहमिहास्मि वः लीलावतारकर्माणि कीर्तितानीह सर्वसः पतितस्कळितश्चार्थ श्रूत्वा वा विवसो भृवन् हरये नम इत्युच्चैर्मुच्यते सर्वपादकात् हर एणम इत्युच्चैर्मुच्यते सर्वपादकात् सङ्कीर्त्यमानो भगवानन्तः श्रुतानुभावो व्यसनं हि प्रविश्य चित्तं विदुनोद्यशेषं यथा तमोर्को भ्रमि वाति वातः मृषागिरस्ताह्यसतीरसत्कथा न कथ्यते सत्यं तदुहैव मङ्गलम् तदेव पुण्यं भगवद्गुणोदयम् तथेव रं यं रुचिरं नवं नवं तथेव सस्वन्मनसो महोत्सवम् तदेव सो कार्णवशोषणम् नृणाम् यदुत्तमश्लोक अनुगीयते न धच्चित्रपदम् हरेत् यशो जगत्पवित्रं प्रगृणीत कर्हि चेत् सत्त्वांसतीर्थं न तु यत्राच्युतस्तत्र हि साधवोमलाः सवाग्निसर्गो जनधाकसम्प्लवो यस्मिन् प्रतिश्लोकम् अभत् त्यपि नामान्यनन्तस्य योषाङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः नैष्कन्यमपि अच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्चनं कुतः पुनः कर्म यदप्यनुत्तमं यशस्त्रियामेव परिश्रमः परो दिशो अविस्मृतिश्रीधर भात पद्मुणुवातः श्रवणादिर्े अविस्मृति कृष्णपधार विन्त्योकोषिणोत्यभद्राणि समं तनोति च सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तं यूयं द्विजार्घ्या बध भूरिभागां यत् शश्वतात्मनि अखिलात्मभूतं नारायणं देवमदेवमीशम् अजस्र भजता विवेश्य अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रा प्रयोपवेशे नृपते परीक्षितः सदशिरुक्षीणां महतां च शृण्वताम् एतद्वक् कथितं विप्रकथनीयोरुकर्मणः महात्म्यं वासुदेवस्य सर्वा शुभविनाशनं य एवं श्रावयेन्नित्यं यामक्षणमनन्यदीहे श्रद्धावान् योऽनुशृणुयात् पुनानि आत्मानमेव सः द्वादश्याम् एकादश्यां वा शृण्वन् आयुष्यमान् भवेत् पठत्यनन्स्नन् प्रयतस्ततो भवत्यपातकीं पुष्करे मथुरायां च द्वारवत्यां यथात्मवान् उपोक्षसंहितामेतां पठित्वामुच्यते भयाद् देवतामुनयः सिद्धा कीर्तनात् रुचो यजुंषी सामाने द्विजोदीत्यानुविन्दते मधुकुल्याकृतकुल्याः पयः कुल्याश्च कुल्या, कुल्या, तत्पलं पुराणसंहितामेताम् अधीत्यप्रयतो द्विजः प्रोक्तं भगवता यत्तो तत्पदं परमं व्रजेत् विप्रोदीत्याप्नुयात्प्रज्ञां राजन्योधति मे वश्योनिधिपतित्वं च शूद्रशूदयेतपादकात् कलिमलसंहति काल नो किलशो हरिरीतरत्र इह तु पुनर्भगवानशेषमूर्ते परिपटितोनुपतं कथाप्रसङ्गैः तहं आत्मतत्वं जगदुदयस्थितिसंयमात्मशक्तिं द्युपतिभि यजशक्रशङ्गराध्ये दुरवसितस्तवम् अच्युतं नतोऽस्मि उपशितनवशक्तिभिस्व आत्मनि उपरचितस्थिरजङ्गमालयाय भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमः स्वसुखनिभृदचेतास्तद्युधस्थान्यभावोऽपि अजितरुचिरलीलाकृष्टसारस्तधियं व्यतनुत कृपया यस्तत्त्वदीपं पुराणं व्याससूनुं ततोऽस्मि इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः सर्वत्र गोपिका गोविन्दा गोविन्दा गोविन्द सद्गुरूनाथमहराजकी जय सद्गुरनाथ महाराज की जय